मम सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति अत्र इष्टमन्त्र इष्टमन्त्रः यः अस्ति साधनां कर्तुं तत्र इष्टमन्त्रः दीयते तर्हि मनुष्यः इच्छति न इच्छति वा अनिच्छति न इच्छति परमपुरुषस्य दिशि सः गच्छति इत्युक्ते इत तत्र सर्वे मनुष्याः सुखं सुखप्राप्तिम् इच्छन्ति यत्किमपि ते कुर्वन्ति यानि यानि कार्याणि कुर्वन्ति तेषु सर्वेषु अपि किं ते कस्य अन्वेषणं कुर्वन्ति इति ते सुखप्राप्तेः एव अन्वेषणं कुर्वन्ति तर्हि प्रत्येकम् अवस्थायाः अन्तः कुत्र भवति इति चेत् परमपुरुषे परम एव भवति तर्हि परमपुरुषस्य यः यद् नाम वर्तते तस्य आह्वानम् अस्माभिः सर्वैः करणीयम् तर् तादृश आह्वानं कथं क्रियते इति चेत् तत्र साधकः इष्टमन्त्रद्वारा परमपुरुषस्य आह्वानं करोति परमात्मनः यद् नाम वर्तते इष्टमन्त्रे तदेव बहु उत्तमं वर्तते यदा साधकः भावनया भक्त्या परमपुरुष परमपुरुषं परम मनसि निधाय यदा परमपुरुषस्य आह्वानं करोति तदानीं साफल्यं निश्चयेन लभ्यते तर्हि साधकस्य कृते इष्टमन्त्रं विहाय अन्यत् किमपि नास्ति इष्टमन्त्रम् इष्टमन्त्रः एव सर्वमस्ति इति ज्ञापनार्थम् अत्र एका कथा वर्तते ए एकदा हनुमान हनुमान् आसीत् हनुमन्तं प्रति कोऽपि वदति विष्णुः अपि वर्तते रामः अपि वर्तते विष्णुः रामः द्वयमपि द्वयमपि एकमेव खलु तर्हि किमर्थं भवान् सर्वदा राम राम राम राम राम इति वदति विष्णु विष्णु इति वदतु विष्णु इति नाम अपि समानमेव किमर्थं भवान् विष्णुः इति न वदति सर्वदा किमर्थं रामः रामः रामः इति वदति कदाचित् विष्णुः इत्यस्य इति नाम्ना अपि आह्वानं करोतु अत्र तत्र का इति पृच्छति तर्हि हनुमता किम् उत्तरं दत्तम् इति चेत् तस्य उत्तरं बहु सुन्दरं वर्तते हनुमता उक्तं श्रीनाथे जानकीनाथे च अभेदः परमात्मनि श्रीनाथे जानकीनाथे च अभेदः परमात्मनी तथापि मम सर्वस्वः रामः कमललोचनः इति हनुमता उक्तम् तर्हि अत्र श्रीनाथः इत्युक्ते श्री श्री इत्युक्ते लक्ष्मीः लक्ष्मेः नाथः कः इति चेत् विष्णुः श्रीनाथः लक्ष्मीनाथ विष्णु तरी जानकीनाथ जानक्या जानकीनाथ राशनाथ विष्णु विष्णु राम अनो अभेद वर्त है पर विषु राम है आध्यात्मक रीत्या वयं पश्यामः चेत् श्रीनाथः जानकीनाथः इति द्वयमपि एकमेव इति भिन्नं भिन्नं नास्ति तथापि मम सर्वस्वः रामः कमललोचनः इति वदति तथापि अहं तु साधकः अस्मि साधकः अहं यः हनुमान् इति आसीत् हनुमान् इति यः आसीत् तस्य कृते रामः एव सर्वम् आसीत् एवं यः साधकः अस्ति तस्य कृते इष्टमन्त्रः इष्टमन्त्रः एव सर्वं तर्हि इष्टम् इति एकमेव इष्टः एकः एव इष्टः अनेके इष्टाः भवितुम् अर्हन्ति तर्हि रामः एव मम सर्वस्वं विष्णुः नास्ति मम कृते विष्णुः अहं विष्णुः कः इति न जानामि अहं तु रामः एव जानामि जानकीनाथः रामः मम सर्वस्वः तर्हि यद्यपि अनयोः अभेदः अस्ति तथापि मम सर्वस्वः अस्ति रामः इति वदति एवं अत्र <yedda> यदा वयं पश्यामः तत्र संस्कृतभाषायां प्रत्येकं शब्दस्य कश्चन अर्थः भवति शब्दाः अर्थवन्तः भवन्ति प्रत्येकं शब्दस्य कश्चन अर्थः भवति एव तर्हि विष्णुः इति वयं पश्यामः चेत् विष् इति धातुतः अयं शब्दः निर्मितः विष्णुः इत्युक्ते सर्वव्यापी इत्यर्थः सर्वानुस्युतः इत्यर्थः यः सर्वत्र वर्तते सर्वव्यापी यः भवति सः एव विष्णुः विष्णुः इत्युक्ते परमात्मा परमपुरुषः परब्रह्म इत्येव तर्हि विस्तारः सर्वभूतस्य विष्णोः विश्वमिदं जगत द्रष्टव्यम् आत्मवत् तस्मात् अभेदेन विचक्षणैः अयं यः विश्वः वर्तते सः विश्वः कः इति चेत् विष्णोः विस्तारः विष्णोः विस्तारः एव अयम् इदं जगत् सर्वभूतस्य विष्णोः विश्वमिदं जगत् विष्णोः विस्तारः एव जगत् विष्णोः विस्तारः एव अत्र सर्वाणि भूतानि इदं जगत् तु विष्णोः विकासः अस्ति विष्णोः विस्तारः अस्ति अतः यः बुद्धिमान् <त्ति>। मनुष्यः वर्तते तर्हि सः किं करोति इति चेत् प्रत्येकस्मिन् वस्तूनि प्रत्येकस्यां सत्तायां सः विष्णुमेव पश्यति विष्णोः दर्शनं करोति यदा वयं प्रत्येकं वस्तूनि विष्णोः दर्शनं कुर्मः तदानीं वयं वैष्णवाः भवामः वैष्णवाः किं भवन्ति इति चेत् वैष्णवः किं भवति इति चेत् सर्वे वैष्णवाः समदृष्टिनः भवन्ति समदृष्टिनः भवन्ति इत्युक्ते प्रत्येकं वस्तूनि ते विष्णुं पश्यन्ति द्रष्टव्यम् आत्मवत् तस्मात् अभेदेन विचक्षणैः इत्युक्ते तत्र यथा स्वं स्वस्मिन् विष्णुः वर्तते तथैव विष्णुः अन्यत्रापि वर्तते सर्वत्र वर्तते अतः बहिः यदस्ति अन्तः यः अस्ति अनयोः अतः बुद्धिमान् पुरुषः एवं समदृष्टिः समदृष्टिः भवति सः बुद्धिमान् पुरुषः वैष्णवः भवति अत्र एका कथा वर्तते एकः साधुः अस्ति सः साधुः सर्वत्र विष्णुं पश्यति सः तु वास्तविकः साधुः वर्तते सामान्यतया जनाः शुनकं दृष्ट्वा शुनकं न इच्छन्ति तत्र बहिः कश्चन शुनकः अस्ति चेत् तादृशशुनकं प्रति प्रीतिः इति भवति तत्र अस्माकं सविधे आगच्छति चेत् वयं तत्र किं कुर्मः तत्र ताडयामः अथवा किमपि कुर्मः परन्तु यः भक्तः अस्ति यः साधुः अस्ति सः तत्र यत् किमपि वर्तते यत्किमपि वस्तु वर्तते तादृशवस्तु सः श्रद् श्रद्धया पश्यति साधुः यत्किमपि वस्तु वर्तते तद्वस्तु श्रद्धया पश्यति तत्र बहिः धेनुः वा भवतु अजः वा भवतु अथवा यत्किमपि वा भवतु सर्वं प्रति समाना दृष्टिः भवति तर्हि साधु किं करोति इति चेत् सः स्थालिकायाम् अन्नं खाद खादति सः अन्नं खादन् अस्ति तदानीं तस्य सविधे तस्य पार्श्वे एकः शुनकः वर्तते उपविष्टः अस्ति तर्हि कोऽपि पृच्छति अत्र भवान् खादन् अस्ति अयं शुनकः किं करोति भवतः पार्श्वे परन्तु साधु साधुः किं वदति शुनकः अस्ति अस्ति भवतु नाम तत्र का हानिः सः खादन् अस्ति तत्र तस्यां स्थालिकायाम् अन्नं वर्तते पार्श्वे य यः शुनकः अस्ति सः अपि खादन् तस्मात् तत्र अन्यः साधुः कश्चन आयाति सः आश्चर्यचकितः अस्ति सः पृच्छति किमर्थं भवान् कुक्कुरेण सह किमर्थं भवान् कुक्कुरेण सह खादति आश्चर्यम् आश्चर्यं किमर्थमेवं करोति तर्हि तत्र साधुः यः वास्तविकः साधुः अस्ति सः सः वदति यः वास्तृकसाधुः आसीत् सः वदति विष्णुपरिस्थितः विष्णुः विष्णुः खादति विष्णवे कथं हससि रे विष्णु सर्वं विष्णुमयं जगत। इति विष्णु विष्णुपरि विष्णुपरि स्थितः विष्णुः विष्णुपरि स्थितः विष्णुः विष्णुः खादति विष्णवे कथं हससि रे विष्णु सर्वं विष्णुमयं जगत् इति वदति विष्णोः सविदे विष्णुः उपविष्टः अस्ति विष्णुः विष्णोः खादनं करोति अपि तु भवान् यः विष्णुः अस्ति किमर्थं भवान् हसनं करोति अत्र जगत् सर्वं विष्णुमयम् इति वदति तर्हि यः वास्तविकः साधकः एवं पश्यति सर्वं विष्णुमयम् इति पश्यति परमपुरुषः अस्य जगतः नियन्त्रकः अस्ति अतः तत्र सर्वस्य नियन्त्रणं करोति स एव स्वामी वर्तते अतः विष्णुः रामः इति नाम स्वीकृत्य विवादेन न कोऽपि लाभः तर्हि रामः कः संस्कृते रामशब्दस्य अर्थः कः इति चेत् रम् इति धातुतः रामः इति शब्दः निष्पन्नः रमन्ते योगिनः यस्मिन् इति रामः योगी योगिनः ये सन्ति ते यस्मात् यस्मिन् ये आनन्दं प्राप्नुवन्ति सः वर्तते रामः तर्हि इदानीं योगी इति मया उक्तं तरी योगी शब्द योग शब्द कथ निपन्न चेत असुत धा दुज कचन धा युज धा तरी युज धातु घई घई प्रत्यय योजयाम चेग इया युजा घई प्रत्यय योजना चेत योग शब्द निष्प्य से तर्हि योगः इत्यस्य अर्थः अस्ति संयोगः योगः इत्युक्तौ जीवात्मा परमात्मनोः संयोगः योगः जीवात्मा परमात्मा वस्तुतः एकः एव परन्तु तत्र यदा शरीरे आत्मनः सम्बन्धः भवति तदानीं जीवात्मा पृथक् परमात्मा पृथक् इति अनुभवः अस्माकं सामा सामान्यतया भवति परन्तु योगेन वयं किं कुर्मः जीवात्मनः परमात्मनः ऐक्यं कुर्मः एतादृश ऐक्यम् इत्यत्र योगः इति यः शब्दः वर्तते तत्र युञ्ज् धातोः व्यवहारः भवति न तु युज् धातोः तर्हि धातुद्वयं वर्तते युज् इति धातुः युञ्ज् इति धातुः युज् अर्थः वर्तते मेलनम् इति अर्थः वस्तुद्वयमस्ति अनयोः मेलनं यथा तत्र सिकता अस्ति अनन्तरं शर्करा अस्ति सिकता सेण्ड् शर्क, शर्करा शर्करा यदा अनयोः मेलनं भवति तदानीं तत्र यद्यपि मेलनं जातं तथापि तयोः ऐक्यं न जातं तथापि इदानीमपि वयं द्रष्टुं शक्नुमः अयं इयं शर्करा इयं सिक्कता इति वयं वेदम् अवगन्तुं शक्नुमः यतोहि तत् तयोः पृथक् पृथक् अस्तित्वं वर्तते इति तत्र युज् अर्थः परन्तु युञ्ज् अर्थः कः इति चेत् यत्र द्वयोः वस्तुनोः मेलनं भवति तदानीम् एकस्य अस्तित्वं समाप्यते अन्येन तस्य ऐक्यं जायते तर्हि अन्ततो गत्वा एकमेव अवशिष्यते इति अत्र विशेषः अस्ति युञ्ज् धातुः युज्धातुः इत्युक्ते टु युनैट् टु य एड् टु एड् इत्यर्थः युञ्ज् इत्युक्ते टु युनिफै यथा तत्र शर्करा अपि यदा अनयोः मेलनं भवति तत्र शर्करा सम्पूर्णतया जले ऐक्यं प्राप्नोति ऐक्यं भवति यथा तत्र योगे जीवात्मा परमात्मनोः ऐक्यं भवति तत्र युञ्ज् धातोः व्यवहारः न तु युज् धातोः उभयत्र तु योगः इति शब्दः निष्पद्यते द्वाभ्यां धातुभ्यां योगः इति शब्दः निष्पद्यते परन्तु तयोः द्वयोः अपि अर्थः भिन्नः अस्ति वस्तुतः वैदिकभाषायां तत्र योगः इति यः शब्दः वर्तते तत्र यकारस्य स्थाने आदौ जकारः अस्ति चेत् आदौ यकारः आदौ यकारः अस्ति चेत् योगः इत्यत्र आदौ यकारः अस्ति यकारः अस्ति चेत् वैदिकभाषायां यकारस्य स्थाने जकारस्य प्रयोगः भवति योगः इति वयं यकारः मध्ये अथवा अन्ते वर्तते चेत् तदानीम् उच्चारणे जकारस्य श्रवणं न भवति परन्तु आदौ अस्ति चेत् योगः इति वयं वदामः परन्तु वियोगः समयः इति वयं संयोगः इति वयं वदामः तत्र तु यकारस्य स्थाने जकारः न भवति परन्तु यकारः यकारः आदौ अस्ति अस्ति चेत् तदानीं जकारः आयाति तर्हि मया उक्तं रामः इति शब्दस्य आदौ अर्थः अस्ति रमन्ते योगिनः यस्मिन् योगी यस्मिन् यस्मात् अथवा यस्मिन् आनन्दं प्राप्नोति सः रामः योगी यः यस, वर्तते सः तु धनात् अथवा यशसः अथवा नाम्नः सः आनन्दं ना प्राप्नोति सः कस्मात् आनन्दं प्राप्नोति अथवा कस्मिन् आनन्दं प्राप्नोति इति चेत् रामे परमात्मनि तस्य कृते न अल्पे सुखम् अस्ति भूमैव सुखं तत्र किञ्चित् वस्तु अस्ति तस्मात् सः न सन्तुष्टः खादनखादनपदार्थः यः यः वर्तते तस्मात् सः न सन्तुष्टः सः इतोपि इच्छति सः किम् तस्य कृते भूमैव सुखं यतोहि सः अनन्तम् इच्छति असीमितं वस्तु इच्छति सः तु तस्मात् एव सुखं प्राप्नोति तादृशसत्ता का इति चेत् सत्ता रामः रं धातुतः हैप्रत्ययं रामः इति शब्दः लभ्यते तर्हि रामः वा भवतु कृष्ण रा, रामः वा भवतु विष्णुः वा भवतु द्वयमपि एकमेव परमपुरुषः अपि च विष्णुः अपि च रामः इति सर्वं समानं परमात्मनः हा नाम हनुमान् यः महापण्डितः आसीत् सः तु एतज्जानातिनाथे जानकीनाथे च अभेदः परमात्मनि अनयोः वेदह नास्ति इति तु सः जानाति द्वयमपि एक एका एव सत्ता इति सः तु जानाति तथापि सः राममेव इच्छति रामशब्दस्य अन्यः अर्थः अपि वर्तते रातीमहीधरः रामः इत्युक्ते तत्र अस्मिन् जगति अस्मिन् विश्वब्रह्माण्डे बहु य या, यः श्रेष्ठः अस्ति यः उज्ज्वलमान उज्ज्वलमाना सत्ता वर्तते सा सत्ता तु रामः एव द वन् मोस्ट् एफ्सल्जण्ट् एण्टिटि इन् दिस् यूनिवर्स् एण्टैर् यूनिवर्स् परमपुरुषः ज्योतिष्मत्वस्तु अस्मिन् जगति अस्मिन् विश्वब्रह्माण्डे परमपुरुषः परमात्मा स एव विष्णुः स एव ईश्वरः स एव रामः तस्मात् या ज्योति आयाती ज्योत्या अस्गती सर्व्योतिष्मी तह अ ज्योति स्वय ज्योति न वर्तते। न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति तर्हि सूर्यः प्रकाश्मान् वर्तते परन्तु तस्मिन् यः प्रकाशः वर्तते सः प्रकाशः स्वस्य प्रकाशः इति चेत् न सप्रकाशः तु परमात्मनः प्रकाशः तस्मात् एव सूर्येण स्वीकृत स्वीकृतः अस्ति प्रकाशः एवं चन्द्रस्य प्रकाशः स्वस्य प्रकाशः नास्ति नक्षत्राणां प्रकाशः स्वस्य प्रकाशः नास्ति एते सर्वे ज्वलन्ति कथम् इति चेत् प्रकाशः तु परमात्मनः ऋणरूपेण तैः प्रकाशः स्वीकृतः तर्हि रातिमहीधरः रामः इत्युक्ते राति इत्यस्मात् रा इति स्वीकुर्मः महीधरः इत्यस्मात् म इति स्वीकुर्मः तर्हि रामः इति भवति महीधरः इति महीं दरती। विश्वं धरति यः राति ध्राति इति ज्योतिष्मान् इति यः ज्योतिं ददाति इति रामः तर्हि अत्र यः साधकः वर्तते सः तस्य कृते इष्टमन्त्रः एव सर्वमस्ति यः साधकः वा भवतु साधिका वा भवतु सः किं करोति इति चेत् सा किं करोति इति चेत् सा तु पूजायां न उपविशति न अन्यत् किमपि करोति परन्तु इष्टमन्त्रे लग्नः लग्ना भवति सामान्यतया आदौ यदा वयं साधनां कुर्मः तदानीं मनसि एकत्र न तिष्ठति मनसि बहवः तत्र बहवः विषयाः आगच्छन्ति ओ मया एतत् का कार्यं करणीयं मया पाकं करणीयं मया अत्र गन्तव्यं तत्र कर्तव्यम् इति एतत् सर्वं मनसि आयाति आदौ इति तु सामान्यमस्ति आदौ यः साधकः साधनायाम् उपविशति तत्र सङ्घर्षः करणीयः यतोहि अस्माभिः पशुजीवनात् आगतम् अतः प्रयासेन सङ्घर्षेण शनैः शनैः अग्रगतिः भवति सङ्घर्षेण एव विकासः भवति सङ्घर्षः नास्ति चेत् जीवस्य अग्रगतिः एव न भवति अत्र अस्माकं सामाजिकजीवने भवतु वैष्टिकजीवने भवतु अथवा यत्किमपि आध्यात्मिकजीवने एव भवतु सर्वत्र सङ्घर्षः तु अवश्यम् अवस् अस्ति सङ्घर्षं विना किमपि न भवति इत्युक्ते संस् अत्र संस्कृतभाषायां आ... तत्र लज्जा इत्यस्मिन् अर्थे अन्यशब्दाः अपि भवितुम् अर्हन्ति परन्तु यदा भाषायामपि सङ्घर्षः भवति सङ्घर्षेण एव किं भवति इति चेत् प्रथमं कश्चन शब्दः भवति तस्य परिष्कारः अपि कदाचित् भवति अनन्तरं एव प्रचलन तत्र लोके व्यवहाररूपेण भवति अतः यथा भाषायां सङ्घर्षः अस्ति प्रत्येकस्मिन् क्षेत्रे सङ्घर्षः अवश्यम् एव भवति सङ्घर्षं विना अग्रगतिः कदापि न भवति अतः अस्माभिः सङ्घर्षार्थं सिद्धाः वयं भवामः सिद्धाः भवामः अत्र योगनिष्ठजीवनम् इति एकं यन्त्रमस्ति तस्मिन् यन्त्रे वयम् अस्मान् स्थापयामः चेत् बहिः किम् आगच्छति इति चेत् एकः विकसितः पुरुषः बहिः आयाति तस्य मनः अपि विकसितं भवति शरीरमपि विकसितं भवति तत्र मानसिक, आध्यात्मिक, आध्यात्मिकप्रगतिः भवति इति अत्र विषयः अपि च रामशब्दस्य तृतीयः अपि अर्थः वर्तते तर्हि अस्माकं मनुष्याणां पशुजीवनं तु परिचितः मार्गः परिचितः मार्गः वर्तते तर्हि अस्माकं मनः यः मनः पशु पशुतः अभिमुखी अभिमुखी मनः यः वर्तते मानवमनः तत्र मन मनः सह एव सम्बोधनम् अस्ति रावणः इति तर्हि यः यद् मनः द गच्छति पूर्वं पश्चिमः उत्तरम् उत्तरः दक्षिणः ऊर्ध्वः अधः अनन्तरं प्रदिशः इति वयं वदामः अनन्तरम् अनुदिशः ईशानः वायुः अग्निः नैरतः इति दिशाः दशदिशः सन्ति यद् मनः पशुताभिमुखी वर्तते तादृशमनः एव रावणः इति वयं वदामः खलु यदा मनः पशुजीवने व्यस्तः अस्ति तदानीं तस्मात् उपायः कः तस्मात् अग्रगतिं प्राप्तुम् उपायः कः इति चेत् रामस्य शरणे अस्माभिः गन्तव्यं परमपुरुषस्य शरणे गन्तव्यं परमपुरुषस्य शरणे वयं गच्छामः चेत् एव अस्माकम् अग्रगतिः भवति तर् अग्रगत्यर्थं तत्र किमपेक्षितम् इति चेत् रावणस्य मरणमपेक्षितम् यदा रामस्य शरणे वयं गच्छामः तदानीं रावणस्य रावणस्य मरणं भवति तर्हि रमन्ते योगिनः यस्मिन् इति एकः अर्थः रातिमहीधरः रामः इति अन्यः अर्थः तर्हि रावणस्य मरणं रामः इति अपि तृतीयः अर्थः अस्ति यदा रामस्य शरणे वयं गच्छामः तदानीं अस्माकं यद् मनः वर्तते दश दशसु दिक्षु गच्छति वस्तुनं प्रति धावति तादृशमनसः हननं भवति तद् रावणस्य मरणं भवति रामस्य शरणे यदा वयं गच्छामः अतः रावणस्य इत्यस्मात् रा मरणम् इत्यस्मात् म इति स्वीकुर्मः चेत् रावणस्य मरणं रामः इति आयाति तर्हि यस्य शरणे वयं गच्छामः तस्मात् रावणस्य मरणं भवति मनसः अधोगतिः न भवति येन न भवति सः रामः रामः विष्णुः इति द्वयमपि एकमेव तथापि हनुमतः हनुमतः कृते रामः एव सर्वम् आसीत् यथा आसीत् रामस्य कृते तथैव अस्माकं कृते यद् यः इष्टमन्त्रः वर्तते सः इष्टमन्त्रः एव सर्वं सर्वं वर्तते तस्य स्मरणे एव जीवनस्य यापनं भवेत् तर्हि अस्माकं मनः देवी देवता एतद् अत्र तत्र इति बहवः देवताः अत्र अथवा मूर्तयः इति एवं रीत्या अस्माकं मनः न धावनीयं परन्तु इष्टमन्त्रं प्रति धावनीयम् एवं कुर्मः चेत् एकाग्रता भवति एकाग्रता मनसि एकाग्रता आवश्यकम् अग्रगतिं प्राप्तुम् एकाग्रता आवश्यकम् एकाग्रता नास्ति चेत् तत्र मनः इतः ततः गच्छति अतः मनः एकस्यां दिश् तत्र एकस् एकस्यां दिशि मनः गच्छेत् तदर्थम् अत्र परमात्मा परमात्मनः आह्वानम् इष्टमन्त्रेण वयं कुर्मः तदानीं मनः सदा एकस्यां दिशि गच्छति इतः ततः न गच्छति यदा तत्र बहवः सन्ति तदानि मनसः विभजनं भवति तथा मा भवेत् मनः मनसि ऐकाग्र्यं भवेत् ऐकाग्र्यं यत् कथं हनुमता प्राप्तम् इति चेत् रामः इति एका एका परमात्मनः एक एक नाम यथा आसीत् हनुमता कृते हनुमतः कृते तथैव अस्माकं कृते तत्र साधनायाम् इष्टमन्त्रः यः मन्त्रः अस्ति तस्य स्मरणं प्रतिदिनं प्रतिक्षणं यदा भवति तदानीं निश्चयेन अग्रगतिः अवश्यम् एव भवति इति अत्र वार्ता अस्ति मम सङ्गणकम् इदानीमपि सम्यक् न इदानीमपि तत्र अप्डेट् अप्डेट् जायमानः अस्ति अतः अहं स्क्रीन् प्रदर्शयितुं न शक्नोमि अद्य अतः कृपया भवन्तः उद्घाटयन्तु अत्र अस्माकं विषयः अस्ति साधनाभ्यासः इति प्राप्तं वा स्क्रीन् प्राप्तं करपत्रं प्राप्तं वा हरि ओम् शर्लाभगिनी प्राप्तं वा प्राप्तं खलु अस्तु तर्हि अत्र अस्माकं विषयः अस्ति साधनाभ्यासः इति अस्माभिः आरम्भतः अस्माभिः किमुक्तम् इति चेत् मनुष्यजीवनस्य लक्ष्यमस्ति परमात्मा परमात्मनः प्राप्तेः कृते अस्माभिः साधना करणीया तर्हि अग्रगतिः साधनाय एव भवति तर्हि साधनायां प्रथमं तत्र साधना चित्ते भवति तदनन्तरं चित्त चित्तं निगृहीतं भवति अहं तत्वे अनन्तरं साधना अहं तत्वे भवति अहं तत्वं महत्तत्वे निगृहीतं भवति अनन्तरं साधना महत्तत्त्वे भवति महत्तत्वं जीवात्मनि निगृहीतम् अनन्तरं जीवात्मा परमात्मनि विलीनं भवति इति तत्र प्रक्रिया अस्ति तत्र काचित् प्रक्रिया अस्ति साधना कर्तुं काचित् प्रक्रिया अस्ति साधनायाम् अस्माभिः अविद्या अविद्यामायाः विरोधे सङ्घर्षः करणीयः तादृशमाया तादृशप्रकृतिः एका वर्तते आ, अनेक आ, अनेका अनेका ना, नास्ति एका एव प्रकृतिः सा प्रकृतिः सा शक्तिः शिवस्य शक्तिः अस्ति तर्हि तया सह अस्माभिः युद्धः करणीयः तदानीमेव प्रकृतेः बन्धनात् मुक्तिः भवति तर्हि अत्र प्रकृतिः एका अद्वितीय एका अद्वितीयशक्तिः वर्तते तस्य प्रभावेन मनसः मनसः मनसि चञ्चलता अवश्यं सर्वदा भवति मनः एकत्र न तिष्ठति मनः इतः ततः गच्छति एकत्र मनसः आनयनम् इत्यत्र क्लेशः अस्माभिः अनुभूयते खलु तदर्थमपि अस्माभिः सङ्घर्षः करणीयः आदौ साधनायां क्लेशः अवश्यमेव भवति मनसि चञ्चलता भवति सा अस्माकं मनुष्यजीवने यावत्पर्यन्तम् अस्माकं जीवनम् अस्ति तावत्पर्यन्तं मनसि तु सङ्घर्षः अवश्यमेव भवति मनः कदाचित् उपरि गच्छति कदाचित् अधोभागे गच्छति उपरि गच्छति यदा प्रकृतेः प्रभावः न्यूनः भवति अधोभागे गच्छति यदा प्रकृतेः प्रभावः अधिकः भवति अतः अत्र अत्र मनसि चञ्चलता कथमायाति इति चेत् प्रकृतेः गुणप्रभावात् एव मनसि चंचलता अस्ति तर्हि मनसि या चञ्चलता वर्तते तस्य निग्रहणं कथं शक्यते इति चेत् प्रकृतेः बन्धनात् मुक्तिः यदा भवति तदानीमेव अत्र अग्रगतिः भवति भवितुम् अर्हति तदानीमेव मनसि शान्तिः अपि आयाति तर्हि ततः अग्रे इदानीम् अस्माभिः गन्तव्यं तत्र किं पृष्ठ अङ्कपञ्चमम् मनस अभिवेगस्य स्थरीकरणं आम् आम् करेक्ट् करेक्ट् तत् एव सत्यं mm. सम्यक् अस्तु सरलभग्नि भवती पठतु अस्तु मनस अभिवेगस्य स्थरीकरणम् एकाग्रतायाः च विकासनं च समानमेव मनस एकाग्रता न संभवतीवीवात्मा प्रकृते गुण प्रभा मुत साधनाया अथवा साधना अभ्यास अभी उद्देश्य मनस एकाग्रता प्राप्त प्रथमतया मनस बाह्यतम प्रकटीकरण यहां तरह प्रकृति प्रभा मुक्ति आवश्यक सै तत परम अहम तत्व स्या मुक्ति सैंते महत वुत्व प्रकृते प्रभाव मुक्त सैन मन चित अहम तत्व महत प्रसुत वर्तते अतः क्रमण तेज मनृत्त सैत् तद मन सब मनस एकाग्रता इन अन कि अभी तो साधना अथवा साधनाभ्या साधना प्रकृति प्रभाव जीवात् मन मुंचती यहां बवती उक्तवती ती अंचल अस्त मनस अभीगे स्थरीकरण मन से एकाग्रता Uh, यदी प्राप्त तदा एव मनस विका मनस विकास विका मनस लग्न परम पुष प्रति बीती अस्सी मनस एकाग्रता नववती यव जीवात्मा प्रकृति गुण प्रभाव मुक्ता तो मन सद प्रकृति गुण गुना, गुणा प्रभावित होवती तो यहाँ मनस प्रकृति क्या प्रधान अस्त सत्वर तस् किम् अधिकम् अस्ति तस्य अनुसरा अनुसृत्य मनस् स गति भवति तमस् वा रजस् तस्य तत् प्रभावः अस्ति तु मनः बहु चञ्चलं भवति तत् इतरतर इतः उत म मनः धावति किन्तु यदि सत्वात् एकाग्रता आगच्छति तदनन्तरम् एव अग्रे साधनायाः प्रगतिः भवति साधनायाः अग्रे प्रगतिः इत्युक्ते मनः शान् भवति तत् स्वविकल्प निर्विकल्प इति समाध्याम् अग्रे प्रगतिः भवति इति अस्ति एतद् एव साधनाया साधनाभ्यासस्य अस्माकम् उद्देश्य साधनायाः एव अस्ति मनः एकाग्रता भवेत् सो मनस एकाग्रता प्राप्तुं प्रथमतया किं मन मनसः यत् प्रकृतेः प्रभावः अस्ति तत् न्यूनिकृतम क्र, अपि तस, तस, तस्मात् निवृत्ति प्राप्तम इति अस्माकं लक्ष्यं प्र, भवेत् तो प्रथमं तु कारणकी मनः चित्त आ, आ, चित्त, आ, चित्त, आ, चित्त चित्तसा चित्तसा बहिः गच्छति इन्द्रियाणि बहिःमुखम् अस्ति यथा इदानीं वयं दशमुखरावण यत् अस्ति तथैव अस्मा अस्माकं कम... इन्द्रियाणि अपि सर्वत्र गच्छन्ति दश इन्द्रियाणि तेषां निग्रहणं प्रथमं कर्तव्यं तत् यदि निग्रहं भवति तदानीम् एव चित् चित्तस्य निग्रहणं भवति तदनन्तरं चित्त अहं तत्वे अहं तत्त्वमहत्तत्वे इति प्रविलन् प्रविलं भवति यदा इति भवति तदा साधना अपि यदि कण्टिन्यू भवति तदानीम् एव सा साधनायाः प्रकृति आगत्य आग, जीवा जीवात्मा इति मुक्ति प्रति गच्छति इति अस्ति प्रकृतेः निवृत्तिः अपि मनस एकाग्रता इति महतत्वे भवेत् तस्मात् महत्तत्वात् तदनन्तरं परमपुरुषे इति आगच्छति यदि महत्तत्वे अस्ति तत् तदानीमपि अहं भाव अहम् अस्मि इति अहम् इति भावः अस्ति तत् अपि गन्तव्यं तस्मात् अपि निवृत्ति निवृत्ति भवेत् इति अस्ति इति भगिनि हा समीचीनं भगिनि सम्यक् अस्ति इत्युक्ते तत्र पूर्वस्मात् परिचय परिचयः तत्र किञ्चित् अग्रगतिः अस्ति तत्र एकाग्रता कथं वयं प्राप्तुं शक्नुमः मनः मनसि या चञ्चलता अस्ति तस्य निग्रहणं कथं शक्यते तर्हि यदा मनसि अधिका चञ्चलता वर्तते तदानीं तत्र जीवने अपि चञ्चलता भवति तर्हि मनुष्यस्य स्वभावः कथमस्ति इति चेत् मनसि मनसः स्वभावः कथमस्ति तदाधारेणैव मनुष्यस्य स्वभावः अस्ति तर्हि मनसि या चञ्चलता अस्ति तस्य निग्रहणार्थम् अस्माभिः साधना करणीया साधना करणीया यदा साधना क्रियते तदानीं प्रकृतेः प्रभावः क्षणैः प्रभावः न्यूनः भवति प्रकृतेः प्रभावस्य न्यूनीकरणं साधनया भवति यदा एवं कुर्मः तदानीं मनसि एकाग्रता आयाति मनसि शान्तिः अपि आयाति क्रमेण प्रकृतेः प्रभावात् अपि भवति अत्र किम् अवगन्तव्यम् चेत् प्रकृतिः इति शक्तिः अस्ति परन्तु प्रकृतिः विल्लन् अस्माकं जीवने विल्लन् नास्ति अत्र प्रतिसञ्चरधारायां प्रकृतिः नित्यनिवृत्ता प्रकृतिः अपि अस्माकं सहायं करोति इत्युक्ते तादृशव्यवस्था वर्तते परमात्मा अपि च प्रकृतिः अनयोः एतादृश अग्रिमेण्ट् अस्ति यद् प्रतिसञ्चरधारायां प्रकृतिः नित्यनिवृत्ता भवति सः स्वयम् अस्माकं सहायम करोति अतः एव प्रतिसञ्चरधारायां सत्त्वगुणस्य प्राधान्यं वर्तते सत्त्वगुणस्य प्राधान्यं वर्तते तत्र किं भवति इति चेत् अस्माकं सहायं भवति अग्रगतिं प्राप् अग्रगतिं प्राप्तुं सत्त्वगुणस्य वर्तते इति कृत्वा एव अस्माभिः अग्रे गन्तुं शक्यते खलु यदा सत्त्वगुणस्य प्राधान्यम् इत्युक्ते मनुष्य मनुष्यस्य दशवादने अत्र तादृशव्यवस्था वर्तते बै डिज़ैन् तत्र सत्त्वगुणस्य प्राधान्यं वर्तते यदा वयमपि वयं प्रयासं कुर्मः तदानीम् इतोपि सत्त्वगुणस्य अधिकं प्राधान्यं भवति यदा अधिकं प्राधान्यं भवति तदानीम् अग्रगतिं प्राप्तुं अस्माकं सहायता भवति तर्हि साधना एव अस्माकं मनसि या चञ्चलता अस्ति तस्य निग्रहण निग्रहणार्थं सहायं करोति प्रकृतेः बन्धनात् मुक्तिम् अपि ददाति तर्हि तत्र साधनायां किं भवति इति चेत् यथा मया उक्तं पूर्वं क्रमेण सा तत्र अस्माकं मनसः यः अंशः अस्ति चित्तम् तत्र चित्तं आ, तत्र अहं तत्वे निगृहीतं भवति विलीनं भवति अनन्तरम् अहं तत्त्वं पुनः महत्तत्वे विलीनं भवति एवं रीत्या महत्तत्वं जीवात्मनि विलीनं भवति क्रमेण यदा वयम् अन्तः अन्तः अन्तः गच्छामः तीव्ररीत्या साधनां कुर्मः साधनां कुर्मः तदानीं तत्र किं भवति प्रकृतेः प्रभावः न्यूनः भवति मनसि चञ्चलता अपि यदा मनः अन्तः गच्छति अस्माकम् अस्माकं मनः बहिर्मुखमस्ति इन्द्रियाणि सर्वाणि बहिर्मुखानि सन्ति यदा इन्द्रियाणि निगृहीतानि अपि च वयं साधनं यदा वयं कुर्मः मनः अन्तः गच्छति यदा अन्तः गच्छति अन्तः गच्छति तत्र एकाग्रता भवति परमात्मनि विलीनं भवति अन्ततो गत्वा किं भवति प्रकृतेः प्रभावात् मुक्तिः भवति अयमेव एकः उपायः अस्ति अयमेव एकः उपायः अस्ति अग्रगतिं प्राप्तुम् अतः अत्र प्रकृतिः अस्माकं वैरी नास्ति अस्माकं शत्रुः नास्ति प्रकृतिः तर्हि प्रकृतिः अस्माकं सहायमेव करोति अतः प्रकृतेः नियमानुगुणं वयं नियमानां पालनं कुर्मः अनन्तरं साधनामपि कुर्मः तदानीं चैतन्यस्य विकासः भवति चैतन्यस्य प्रतिबिम्बस्य विकासः भवति प्रकृतेः नियमानां पालनं कुर्मः तदानीम् अवश्यमेव अग्रगतिः भवति तदानीं, अग्रगति तदानीं प्रकृतिः अस्माकं विरोधमपि न करोति यतोहि तस्य व्यवस्थानुगुणं वयं गच्छामः खलु तर्हि प्रकृतिः परमपुरुषस्य यन् यं, अस्ति अतः तर्हि सा यथा परमपुरुषस्य आज्ञा वर्तते तथैव सा कार्यं करोति तस्य तस्य कार्यं किम् इति चेत् नित्यरूपेण निवृत्तिं सा तदर्थं वयं प्रयासं कुर्मः चेत् प्रकृतेः नियमानुगुणं वयं गच्छामः चेत् तत्र क्लेशः एव न भवति अग्रगतिः अवश्यमेव भवति अस्माकं क्लेशः किमर्थं भवति इति चेत् नियमानुगुणं वयं न गच्छामः तदर्थं क्लेशः अस्माभिः अनुभूयन्ते खलु तर्हि अत्र बन्धनात् मुक्तिं प्राप्तुम् अस्माभिः प्रयासः करणीयः तर्हि यथा अस्माभिः एका कथा पूर्वं चिन्तितमासीत् तत्र कथायाः श्रवणं कृतमासीत् पूर्वं तत्र त्रयः किमस्ति चोराः सन्ति त्रयः चोराः एकः अस्ति सत्गुणः अन्यः अस्ति रजोगुणः अन्यः अस्ति तमोगुणः कश्चन पुरुषः वने गच्छन् अस्ति तर्हि तस्य पार्श्वे एते त्रयः चोराः आगच्छन्ति आगत्य तस्य सविधे यत्किमपि आसीत् धनं यत्किमपि आसीत् तत्सर्वं ते स्वीकृतवन्तः तत्सर्वं स्वीकृत्य ते चिन्तयन्ति किम् इदानीं किं करणीयम् अयं पुरुषः यः अस्ति तस्य का गतिः इदानीं तर्हि तत्र तमोगुणः वदति ओ अयं पुरुषः जीवितः न भवेत् तस्य हननम् आवश्यकमस्ति यदि सः जीवितः भवति तदानीं सः आरक् आरक्षकस्य सविदे गत्वा अस्माकं विवरणं ददाति तदानीम् अस्माकं हानिः भवति वयं तु कारागृहे भवामः अतः तमोगुणः एवं वदति तर्हि तदनन्तरं तत्र रजोगुणः किं वदति इति चेत् एतादृशं मास्तु हननं मास्तु तस्य बन्धनं कुर्मः वृक्षे तस्य तर्हि यदा वयम् अपगच्छामः तदानीं सः तु तत्र बन्धनात् कथञ्चित् मुक्तिः प्राप्नोति चेत् क्लेशः नास्ति तावत्पर्यन्तं वयं तु अपगच्छामः अतः वयं तु सुरक्षिताः भवामः अतः क्लेशः तस्य हननं इति सः वदति तदानीं स किमपि न वदति तदनन्तरं सत्त्वगुणम् एतत् सर्वं शृणोति तदनन्तरं सः किं वदति इति चेत् तस्य हननमपि मास्तु तस्य बन्धनमपि मास्तु अहं किं करोमि इति चेत् तस्य सविरे यत्किमपि अस्ति तद् गृहि स्वीकरोमि गृह्णोमि गृह्णीमः तद्वयं गृह्णीमः परन्तु सत्त्वगुणः किं करोति इति चेत् न केवलम् इदानीं तत्र तमोगुणः रजोगुणः किं करोति इति चेत् बन्धनं करोति खलु तर्हि सत्त्वगुणः किं करोति इति चेत् तत्र बन्धनात् मुक्तिं करोति तत्र रज्जुः या रज्जुः आसीत् तस्य कर्तनं करोति तदनन्तरं सत्त्वगुणः किं करोति इति चेत् तत्र अग्रगतिं प्राप्तुं मार्गमपि प्रदर्शयति तत्र नगरं कुत्र अस्ति इति प्रदर्शयति तस्य चोरस्य सविधे तत्त्वगुणः अपि गच्छति मार्गं प्रदर्श्य नगरं प्रति गच्छति तदनन्तरं सत्त्वगुणः वदति पुरुषं प्रति वदति अहं भवन्तम् अत्र आनयामि नगरं प्रति अत्र एव अहं अग्रे भवान् गच्छतु अहम् इदानीं गच्छामि यदि अहं नगरे आगच्छामि अहम् आगच्छामि तर्हि आरक्षकः यः अस्ति सः मां गृह्णाति अतः इतः अग्रे अहं न आगच्छामि भवान् गच्छतु इति एवमुक्त्वा सत्त्वगुणः अपगच्छति इति वयं पश्यामः तत्र सत्त्वगुणः रजोगुणः तमोगुणः एतेषां त्रयाणां प्रभावः कथमस्ति इति वयं द्रष्टुं शक्नुमः तर्हि प्रकृतिः एवमस्ति सा स्वतन्त्रतया किमपि न करोति सा नित्यनिवृत्ता अस्ति अतः अत्र सत्त्वगुणस्य प्राधान्यम् चेत् सत्त्वगुणम् अस्माकं मार्गप्रदर्शनं करोति कृत्वा किञ्चित् स्थलपर्यन्तम् आयाति ततः अग्रे यतोहि अस्माकं लक्ष्यमस्ति निर्गुणपुरुषः निर्गुणपुरुषः प्राप्तव्यः चेत् गुणराहित्यम् आवश्यकमस्ति अतः सत्त्वगुणस्य अपि अपेक्षा नास्ति तर्हि गुणराहित्यम् अपेक्षितमिति कृत्वा तर्हि मनुष्यः तत्र मनुष्यं द्वादशवादनपर्यन्तं सत्त्वगुणः नेतुं न शक्नोति यतो हि द् द्वादशवादनं प्राप्तव्यं चेत् गुणराहित्यम् आवश्यकं परन्तु तत्र एकादशवादनपर्यन्तम् अथवा किञ्चित् ततः अग्रे अपि अस्मान् नेतुं शक्नोति प्रकृतिः खलु सप्तगुणस्य प्रभावेन वयम् अग्रगतिं प्राप्तुं शक्नुमः परन्तु तत् अन्ततो गत्वा द्वादशवादनं प्राप्तव्यं चेत् गुणराहित्यम् अपेक्षितं तत्र तु परमपुरुषस्य कृपा एव अवश्य आवश्यकी अस्ति गुणस्य तत्त्वगुणस्य आवश्यकता नास्ति किञ्चित् पर्यन्तं तत्त्वगुणस्य अपेक्षा वर्तते ततः अग्रे गन्तव्यं चेत् तदानीं गुणस्य आवश्यकता नास्ति तदानीं परमपुरुषस्य कृपायाः आवश्यकता वर्तते अतः स्मर्तव्यं यत् प्रकृतिः अस्माकं Uh, तत्र शत्रुः नास्ति अस्तु किञ्चित् अग्रे गच्छामः uh, इदानीं किं सुचित्राबाद्नगरे uh, पठति वा स्क्रीन् शेयर करोति खलु क्षम्यतां भगिनी तत्र आङ्ग्लभाषायाम् अस्ति तत् भवत्याः पार्श्वे अस्ति चेत् हा पठतु पञ्चमकृष्टायाः द्वितीय खलु कियत् दूरं मनसः एकाग्रता कियद्दूरं मनसः एकाग्रता मुक्तिं प्राप्नोति इति निर्धारणीय मनसः स्वस्य प्रकटीकरणेभ्यः पूर्णतया निवृत्तिः एव मनसः एकाग्रता न तु मनसः प्रलयः जीवात्मनः उपरि प्रकृतेः गुणप्रभावस्य कारणेन मनः निर्मितमस्ति यावच्च मनः अस्ति तावत् प्रकृतेः प्रभावः अवश्यमेव भव भवेत् मनसः एकाग्रतायाः अर्थः प्रकृतिबन्धनात् मुक्तिः इति नास्ति मुक्तिः मुक्तिं प्रा प्रति गन्तुं निश्चित निश्चितं मार्गः मनसः एकाग्रता एव अस्ति पूर्णा एकाग्रता अस्ति चेदपि मनः विद्यते परन्तु प्रकृतिप्रभावः सर्वथा चञ्चलतां जनयितुम् असमर्थः भवति प्रकृतिसिद्धान्तस्य गुणात्मकप्रभावः महत्तत्वे न्यूनतमः अस्ति एकाग्रचित्ते महत्तत्वम् एव अवशिष्यते यतः अन्ये प्रतिरूपे अहत् तत् अहं तत्त्वं चित्तं च तस्मिन् महत्तत्वे निवृत्तौ भवतः यावन्मनः अनुच्छिन्नं भवति तावत् महत्तत्वस्य अथवा बुद्धितत्वस्य अस्तित्वं भवति महत्तत्त्वम् अहम् इति अस्तित्वज्ञानम् अथवा शुद्धभावना अस्ति अतः मनसा मनसः एकाग्रता न पूर्णमुक्तिः मोक्ष वा महानिर्वाणं मनसः एकाग्रता केवलं सविकल्पसमाधिः यत्र केवलं सोहं इति भावः अवशिष्टः भवति अत्र दत्तमस्ति यदा वयं साधनायां मानसः एकाग्रता नेतुं प्रयासं कुर्मः मनसः एकाग्रता प्राप्तुं प्रयासं कुर्मः तथा प्रकटीकरणेभ्यः पूर्णतया निवृत्तिः अर्थात् अन्यचिन्तनात् पूर्णतया मन अन्य किमपि चिन्तनात् मनसः प्रत्याहारं कृत्वा किमपि एकस्मिन् इष्टमन्त्रे स्थापनीयं तद्वा तादृशमस्ति चेत् कम्प्लीट् विड्राल् इति वदामः चेत् अन्य किमपि चिन्तना न भवेत् यदा कूर्मः अस्ति सः स्वस्य अङ्गस्य अन्तं नीत्वा तत्र स्थापयति तादृशं मनसः अपि एकाग्रता आनीयं मनसि जीवात्मनः उपरि मनस् मानेश, परन्तु मनसः तिष्ठति तत्र मनसः तु तत्र मा, एतादृशं वक्तुं न शक्नुमः मनसः विलीयं भवति इति तत्र यादृश यावत् प्रकृतेः प्रभावः अस्ति तावत्तु मनसः अपि तिष्ठति गुणस्य प्रभावेण मनसः अपि तिष्ठति अतः एतावदपि वक्तुं शक्नुमः मनः अस्ति चेत् तत्र प्रकृतेः प्रभावम् अवश्यं भवति किमर्थम् इत्युक्ते मनः तु जातमेव प्रकृतेः प्रभावात् एव मनः जातम् अतः यदा एतादृशी एकाग्रता मनसि भवति चेत् तत् प्रकृतिबन्धनात् मुक्ति इति वक्तुं न शक्नुमः तद् मोक्षं वा वक्तुं न शक्नुमः तस्य Uh, तत्तु केवलम् एकाग्रता इति वक्तुं शक्नुमः मनसि किञ्चित् एक, एक एतत्तु अग्रे गत्वा अस्माकं सहायं करोति एतद् एकाग्रता अग्रे गत्वा मुक्तिं वा मोक्षं प्राप्तुं साहाय्यं करोति परन्तु एतत् मनसि एकाग्रता यद्भवति तद् मुक्ति वा मोक्ष वा इति नास्ति पूर्ण एकाग्रता अस्ति चेदपि मनः तत्र एकाग्रता यावत्पर्यन्तम् एकाग्रता अस्ति तत्र मनः विद्यते एव तत्र परन्तु यदा एकाग्रता विद्यते तत्र प्रकृतेः प्रभावः किमपि तत्र चञ्चलता जनयितुं न शक्नोति किमर्थमित्युक्ते इदानीं तत्र एकाग्रता अस्ति इष्टमन्त्रे मनसः स्थापितं भवति अतः तत्र चञ्चलता न भवति प्रकृतेः गुणप्रभावः तत्र न्यूनमपि अस्ति न्यूनं कुत्र इत्युक्ते महत्तत्व महत्तत्वे न्यूनं भवति एकाग्रचित्तः यदा भवति तत्र तु अन्यद्वौस्तरौ ये यः स्तः अहं तत्त्वं वा चित्तं वा तेषां तु तत्र इदानीम् अस्तित्वं न भवति ते तु निवृतो भवतः अतः एतत् परन्तु महत्तत्वस्य स्थितिः तत्र अस्ति महत्तत्व इत्युक्ते शुद्धभावना एव अहमस्ति इति अस्तित्वम् अस्ति तत्र अतः मनसः अस्मिन् परिच्छेदे यद्दत्तमस्ति मनसः एकाग्रता इति मुक्तिव पूर्णमुक्तिः वा मोक्ष वा, वक्तुं न शक्नुमः तस्य अन्य नामः अस्ति सविकल्पसमाधिः तत्र मनसः एकाग्रता भवति परन्तु मनः इदानीमपि तिष्ठति तत्र तत्र केवलम् एकः भावः अवशिष्यते सोऽहं तद्युक्ते शुद्धभावनम् किं वदामः अहं तत् वा इत्यस्य अन्य किम् ऐ एम् देट् अस्तु एतादृशी एका भावना भवति अहं तद् भ्रमणः एक अंशः एव इति भावना अवशिष्यति तत्र परन्तु भावना अस्ति तदेव भगिनि शैचिनम् इत्युक्ते अत्र यथा तत्र कथायाम् उक्तमासीत् त्रयः चोराः सन्ति तर्हि सत्त्वगुणः यः अस्ति सः तु लक्ष्यपर्यन्तं नेतुं न शक्नोति यतोहि अस्माकं लक्ष्यमस्ति मोक्षः लक्ष्यं प्राप्तव्यं चेत् गुणराहित्यं प आवश्यकं सत्त्वगुणं सत्त्वगुणः सहायं तु अवश्यं करोति परन्तु लक्ष्यं प्रति नेतुं न शक्नोति तर्हि अत्र एकाग्रता आवश्यकमस्ति एकाग्रता आवश्यकमस्ति सहायकमस्ति परन्तु एकाग्रतायामपि मनः तु वर्तते अतः मोक्षं न मोक्षः न लभ्यते तर्हि मुक्तिः भवितुमर्हति मुक्तिः भवितुमर्हति मरणसमये मुक्तिः भवितुमर्हति यतोहि तत्र मुक्तौ तु अस्माकं मनः भूममनसा सः ऐक्यं प्राप्नोति तर्हि तत्र एकाग्रता मनसः एकाग्रता तु सहायकम् अस्ति एकाग्रता तु सहायं करोति अवश्यं मनसि यदा चञ्चलता भवति मनः यदा सम्पूर्णतया चञ्चल चञ्चलं भवति तदानीं तत्र तु तमोगुणस्य रजोगुणस्य प्रभावः अस्ति तेन एव तयोः प्रभावेन एव मनसि चञ्चलता भवति परन्तु यदा मनः सत्त्वगुणस्य साहाय्यं स्वीकरोति तर्हि मनः इतोपि इतोपि इतोपि इतो इतोपि इतो इतो एकाग्रतां प्राप्नोति तर्हि वन् पाय्ण्टेड् ब भवति परमपुरुषस्य चिन्तने एकाग्रता भवति वन् पायिण्टेड् भवति तत्तु सहायकमस्ति अग्रगतिं प्राप्तुं सहायकमस्ति अतः सत्त्वगुणस्य साहाय्यम् अवश्य सहायता सा, आवश्यक सहायता अपेक्षिता वर्तते सत्त्वगुणस्य सहायेन एव मनः एकाग्रताम् एकाग्र्यं भवति एकाग्रतां प्राप्नोति तदवश्यकमस्ति परन्तु किं स्मर्तव्यम् इति चेत् अन्ततो गत्वा एकाग्रता एव लक्ष्यं नास्ति यतोहि एकाग्रतायामपि मनः अवश्यं वर्तते तर्हि सत्त्वगुणस्य सहायम् अपेक्षितम् अस्ति परन्तु अन्ततो गत्वा मनः मनः गुणातीतं भवेत् मन्ततो गत्वा मनसातीतः मनसातीतावस्था आवश्यकी वर्तते तदानीमेव निर्गुणपुरुषे ऐक्यं भवितुमर्हति इत्युक्ते तत् तस्मिन् समये तु मनः न भवति एव मनः सम्पूर्णतया परब्रह्मणि विलीनं भवति तर्हि किम् अवगन्तव्यम् एकाग्रता इति यदा वयं चिन्तयामः मनः अवश्यम् अस्ति मनः सम्पूर्णतया परमात्मनि परमात्मनः चिन्तने विलीनं वर्तते तस्याम् अवस्थायां चित्तं निगृहीतमस्ति अहं तत्वे अहं तत्वं निगृहीतं निगृहीतमस्ति महत्तत्वे तदानीं मनः सम्पूर्णतया वन् पाय्ण्टेड् अस्ति महत्तत्त्वं प्रकृतेः प्रभावे नास्ति महत्तत्त्वं भूमा मनसा सह ऐक्यं प्राप्नोति It gets suspended in the cosmic mind. So that means samadhi iti vayam vada maha, so avikalpa samadhi iti vada maha. Iti emam ritya vayam sadhana katam karyam karoti iti vayam avagantum shafnu mahatra. Parantu asmakam laksiyam tu antato gatva moksya hashi. Tat katam asma vihi praapta vyaha iti agrei uchshyate. Tari sarla bagni agrei uchshyate. Okay. प्रकृते वर्धम प्रभाषिस्थूलाकृति प्रभाव अति तृष्टिस्थूलरा अून प्रभाव तो सूक्षा अथ कचि मनसी महत सूक्ष्मतम अस्थ स्थूलतमती मुक्ति केवल मनसाव साधना अथवा साधनाभ्यास कर्तव्य स्थूलत अथवा सूक्ष्मता प्रकृति प्रभाव आश्रि प्रकृति प्रभाव न्यूनतावृत्त वस्तूनी ये भूम भूमरी प्रकृते प्रभावित उच्चतम क्रम से अस्तिवती विश्व तु वस्तुषु साधारणत मन विलीनमूलता बाह्या लीनम चेत प्रकृति अतिकम प्रभाव प्राती जीवात्म संपूर्ण प्रतिबिंबन मनुष्य मन कर्म स्वतंत्रता प्राप्न तैयाकृते निपतन इच्छा उत्पद्य पूर्व दृष्टि अतः प्रकृति माया की दौ भ्रमात्मक विरोध विचारौ निर्म निर्मित विचारौ अद्या विद्या मया चे जना विद्यासरण स्वतंत्रता उपयोग कुरे शीघ्रम परमं पद परम प्राप्नुवन्ति यतो हि विद्यामाया मनः सूक्ष्मं प्रति अपि तु ये अविद्यामायाः आश्रयं गृह्णन्ति ते स्वकर्मणां कर्मफलानां प्रतिक्रिया अनुभवन्ति एव अनेन तु सगुणब्रह्म सगुणब्रह्मणः विचारतरङ्गेषु भ्रमन्ति तो इदानीं पु, पुनः प्रकृतेः प्रभाव मनः उपरि कथं भवति यदि प्रकृतेः प्रभाव आ, अधिकम अधिकम अस्ति अपि वर्धमानम् अस्ति इत्युक्ते मनुष्य यतो हि अनुष्ये वयं दृष्टवन्तः आत्मन आत्मन् प्रतिबिम्ब अन्यजीवे जीवानां दृष्ट्या दृष्ट्या सम्पूर्णप्रतिबिम्ब सम्पूर्णतया प्रतिबिम्बितम् अस्ति तो इति म अ तथा मनुष्य प्रति सचरधारा दशवादने आगे तो इधवादन त अग्रे अस्म लक्ष्यम सेवादश द्वा, द्वा, प्रति गति भव अधो गति भवेत। अत्र दत्तमस्ति यदि मनः केवलं प्रकृते आ, प्रभावेन प्रचलति तस्य निग्रहणं न करोति यथा रज रजस्य तमस प्रभावेन आगच्छति तु मनः स्थूलं भवति स्थूलतर सृष्टिः भवति इत्युक्ते अस्माकं जीवनम् अपि पशुतरजीवनम् इति भवति यथा वयम् एकं करपत्रं पश् पशु जी मनुष्यः पशुः इव व्यवहारं करोति तु तत् तस्य अधोगतिः भवति दशवादनातः षड्वादनतः पर्य इति वा मनुष्य इति जन्ममरणचक्रम् इति तत्र आ, एव तिष्ठति तस्य कोपी अग्रे ए, प्रगतिः नास्ति किन्तु यदि मनः प्रकृतेः प्रभावस्य निवृत्तिं करोति नि निवृत्तिं प्राप्नोति यथा तस् निग्रहणं करोति योगनिष्ठजीवनपालनेन साधना क कृता करणेन त तदनन्तरं प्रकृतेः प्रभावः न्यूनं न्यूनं भवत् भव भा, भवति भा, तो इति सूक्ष्मं प्रति तस्य प्रकृतिः भवति सूक्ष्मं प्रति इति प्रति चित्त निवृत्ति भव तदनतर चित्त चित्त अहम तत्व विलीन भविद अहम तत्व महत्व विली भवे अग्रे प्रगति यदि प्रकृति प्रभाव न्यूनाति सात्विक सात् सात्विगुणः अपि आगच्छति तदनन्तरं गुणातीत इति भवितुं प्रयत्नं करोति यदि तत् भवति तद् तत इदानीं यत् वयं दृष्टवन्तः प्र, प्रकृते प्रभाव यदि तिष्ठति अधोगति प्रकृते प्रभाव निवृत्तिः अस्ति तु तो अस्ति यत् प्रभाव अस्ति वयं माया इति विद्या माया अविद्या माया इति वदामः अविद्या माया यत् मनः केवलं वस्तूनि विषयान् प्रति इन्द्रियाणाम् इति तस्मिन् तेषु एव व्यतीत भवति तत्र तस्य जीवनं विषयेषु व्यतीतः अस्ति तत् आनन्दं सुखं त वस्तूनि सः भाति वस्तुनः सुखं सुखं ददाति त्वेति तस्य अविद्यामाया इति अविद्यामाया वदामः यदि मनः आध्यात्मिक पन्थं प्रति गच्छति यत् प्रकृतिः प्रभावः न्यूनम् भवति तदानीम् इति विद्यामाया वदामः विद्यामाया यदि भवति तद् कर्म कर्मफलम् अस्ति तस्य अपि यत् भवति तत् न्यूनं भवति तस्य अनुभवं शनैः गच्छति इति तदनन्तरं यत् मनः एकाग्रता प्राप्य मनः सगुणब्रह्मणि विलीनं करोति सविकल्पसमाध्याम् आगच्छति इति अस्ति अत्र हा हा सम्यक् अस्ति सम्यक् विद्या माया विद्या माया इति नूतनद्वयं पद् पदं पदे इति अत्र निवेशनम् अस्ति अत्र समीचीनं समीचीनम् इत्युक्ते प्रकृतिः एका एव तस्या एव प्रकारद्वयं हा समीचीनं अत्र परिच्छेदः स्पष्टः इति भाति अत्र इतोपि विवरणम् अस्ति मनसः त्रयः स्तराः सन्ति त्रिषु अपि भिन्नभिन्नभन्धनं वर्तते मनुष्याणां जीवानां अत्रक क तत्र तादृशपुरुषः नास्ति लोके यः प्रकृतिप्रभावात् मुक्तः अस्ति इत्युक्ते सः मोक्षः मोक्षं वा मुक्तिं वा प्राप्नोति चेत् तत्तु भिन्नवार्ता नो चेत् सामान्यतया मनुष्यः प्रकृतेः बन्धने एव मनुष्यः भवति तर्हि प्रकृतेः अपि च मनुष्यस्य अनयोः सम्बन्धः अस्ति यादृशसम्बन्धः सः तु इतोपि प्रगतः सम्बन्धः अस्ति अन्यजीवानाम् अपेक्षया अन्यजीवः यता तत्र मृगः अस्ति अथवा मण्डूकः अस्ति तस्य तु प्रकृतेः प्रभावः तादृशम् अस्ति यः सः तु प्रकृतेः प्रकृतेः अनुगुणमेव सः कार्यं करोति यतोहि सः सहजवृत्तया बन्धितः अस्ति परन्तु मनुष्यः तु मनुष्ये तु मनः प्रधानं प्रा मनसः प्राधान्यं वर्तते मनुष्ये तर्हि अन्ये जीवाः तु गुणैः सम्पूर्णतया बद्धाः परन्तु मनुष्यः तथा नास्ति मनुष्येषु मनुष्यः केवलं सहजवृत्तया कार्यं करोति इति नास्ति खलु मनुष्येषु तत्र सहजवृत्तिः सहजवृत्तेः न्यूनता जाता खलु तत्र यदा तत्र मनुष्यः शिशुशैशवावस्थात् अग्रे गच्छति तदानीं मनुष्येषु स्वतन्त्र इच्छा वर्तते तत्र शिशुं वयं पश्यामः चेत् तत्र शिशौ तु स्वतन्त्र इच्छा नास्ति शिशुः तु तत्र सहजवृत्तेः अनुसारमेव कार्यं करोति यतोहि तत्र बुभुक्षा चेत् भोजनं करोति अथवा निद्रा अस्ति चेत् शयनं करोति इति एवं रीत्या तत्र सहजवृत्या एव शिशुः कार्यं करोति परन्तु यदा शिशोः वर्धनं भवति वर्धनं भवति तदानीं युवकवस्थायां तत्र तु स्वतन्त्र स्वतन्त्र इच्छा वर्तते तर्हि सः स्वयं निर्णयं करोति सः स्व स्वयं चिन्तयति स्मः स्वयं कार्यं करोति इति एतादृशस्वामर्थ्यं वर्तते खलु मनुष्येषु तर्हि तदनुगुणं सः सुखं दुःखं सुखं दुःखम् इति अपि प्राप्नोति एवं रीत्या तस्य व्यवहारः भवति जीवने तर्हि तत्र प्रत्येकं क्षेत्रे तस्मिन् या अनन्त एषणा वर्तते तस्याः प्रयोगं तत्र लौकिकवस्तुषु तस्य प्रयोगः भवति अतः एव यत्किमपि अस्ति तत् तस्य अधिकमात्रायां पुरुषः इच्छति खलु स्थूलवस्तु पुरुषः मनुष्यः इच्छति तत्र तु अविद्यामाया मायायाः प्रभावः वर्तते कलु। तर्हि यदा मनुष्यः जगता सह व्यवहारं करोति तदानीं तमोगुणस्य रजोगुणस्य प्राधान्यं भवति परन्तु यदा मनुष्यः आध्यात्मिकजीवने प्रवेशं प्राप्नोति योगनिष्ठजीवने प्रवेशं प्राप्नोति तदानीं तत्र सत्त्वगुणस्य प्राधान्यं भवति तदानीं विद्यामायायाः सहायं भवति विद्यामायायाः सहायेन तत्त्वगुणस्य प्रभावेन अग्रगतिः भवति तदानीं तस्य परमात्मनः सविधे सः इतोपि सव, समीपे गच्छति खलु यदा विद् अविद्यामायाः साहायं करोति अविद्यामायाः सहायं स्वीकरोति यदा तस्य अन्तश्चक्षुः उद्घाटितं नास्ति पशुजीवने व्यवहारं करोति पशुजीवने जीवनं यापयति तदानीं विद्यामाया अविद्यामायाः प्राधान्यं भवति खलु पशुजीवनमेव यापयति सः यतोहि अन्तश्चक्षुः उद्घाटितं नास्ति परन्तु यदा अन्तश्चचक्षुः उद्घाटितं भवति तत् तदानीं तत्र सत्त्वगुणस्य साहाय्यं स्वीकरोति विद्यामायाः साहाय्यं स्वीकरोति तदानीं तत्र कर्मफलानि न भवन्ति यतोहि ब्रह्मभावे सः सर्वं कार्यं करोति तदानीं परमपुरुषः एव तस्य इच्छा वर्तते परमपुरुषस्य प्राप्तिः एव तस्य इच्छा वर्तते तदानीं यत्किमपि स कार्यं करोति तत्र नूतनकर्मफलानि न भवन्ति खलु तदानीम् अग्रगतिः भवति परमपुरुषं प्रति अग्रगतिः भवति इति एवं रीत्या मार्गद्वयं वर्तते विद्यामाया अविद्यमाया इति द्वयमपि प्रकृतेः एव वर्तते प्रकृतिः एका वर्तते विद्यमायायाः सहायेन मनसः अग्रगतिः अविद्यमायाः सहायेन मनसः अधोगतिः इति एवं रीत्या वयं द्रष्टुं शक्नुमः यः पुरुषः योगनिश्चितजीवने व्यस्तः अस्ति सः तु तस्य तु अग्रगतिः भवति प्रकृतेः प्रभावः न्यूनः भवति यतोहि सः साधनां करोति तर्हि शनैः शनैः शनैः अग्रगतिः भवति तर्हि अन्ततः गत्वा परमपुरुषस्य कृपा अस्ति चेत् तत्र सुलभेन मुक्तिः मोक्षः अपि अवश्यमेव भवति इति अत्र विषयः अस्ति अस्तु कोऽपि संशयः अस्ति वा स्पष्टता अस्ति चेत् अत्र स्थगनं कुर्मः अस्तु धन्यवादाः नमस्कारः नमस्कारः धन्यवादः